ष्टके अष्टमप्रश्नः प्रारम्भः स्मेधा स्वेदस्य शक्तिनियता ममिश्री ते वायवे समरसो विदस्वश्वेन्नरस्वभत्यानिचक्रोयेन रोदसीहे राये देवी दशनाधादिदेवम् अथा वायन्नियतः स्वश्च तस्वाः उदः श्वेतम् असदिगन्निरेखे आवायो प्रियाभिः प्रवायमच्छा बृहती मनीषा प्रहत्रयम् विश्ववारागम् वृतप्राम् ज्यामा नियुतः पत्यमानः अविवेक्षति यूयम् वादस्वस्य विस्सदानः प्रजापतेनत्वदेतान्यः दे विश्वाजातापरिता बभूव यत्कामास्ये जहुमस्पन्मास्तो वयकस्यामपदयोरीनाम् पतिन्यजितम् बृहन्तम् तस्मिन् वरे प्रजापतिमृतजामृतस्य यजामजेमधिमोऽ प्रवीतो प्रजापते त्वन्यमा प्रजानाम् दुस्� अतिर्विश्वस्य जगतः परस्पाः हविम्ना देव विहवेषस्व हवेमे लोकाः प्रतिशोधिषश्च परापतानिपत उत्तरश्च प्रजापदे विश्वसृत्यैपदन्यवादिहर्य हव्यम् प्रजापतिम् प्रथम्यज्ञानाम् देवानामग्रेदन्यम् सुवीर्यम् रायस्पोषमिष्यतनाभिमस्मे यो रायईशे राजोक्षः क्षितानाम्पतिमानम् दिव्यन्यसदनम् चक्रवृक्षा पृथिव्यामन्योद्यन्तरिक्षे गुरुवारम् वृक्षम् राजस्पोषम् विश्यतान्नाभिभस्मे ोषाजन्वदविश्व सोमापोषणाभवदञ मे युवभ्याम् विश्वादनाजयेमम्पायामि आदित्यानाभवसानदक्षिणा धारयन्तः तिश्रूमेर्धारेन्वः हे शुकाश्रुयोरः श्रीदन्नादित्याधिपीषिप्रिये कामेन देवाः सरसन्धिवो नः आयान्तयज्ञमुपनोषाणाः हे वसामिषम् कृतम्ब्यन्मत्प्रति ह्यतेजाःमानाय आदित्याः कामम् विदमन्तमस्मेपुत्रार्यान्तयज्ञम् आदित्या सप्तयानैः सन्नवन्दः गतवन्तम् आदित्याः कामप्रियताम् आदित्याम् काममोषे भूतानि चक्षुः सेलम् तु पुत्रादितेरुपस्थम् बलिद्याय देवाः जीर्णम् वर्यस्ये जता यज्ञे अस्मिन् अस्मभ्यम् पुत्रादिते आदित्याः कामःष्ठान् शुक्राय मानवे भरद्धम्व्यम् मजुजाम् यो देव्यानिमानुषाजोषी अन्तर्विश्वानित्मनादिकादि अच्छाग्रो मदयो देवयन्तीयम् भिक्षमाणाः यानो प्रकारवो मना उच्यमानाः देवद्रिजीवन्तः प्राच्यति हविर्भरम् अस्य सूर्यस्य गोपतिरेग इन्द्र ेतश्च वश्वदूरम्भप्रभोदतेन अस्मेधे हि एवमत्पाम्र कृवाजरत्नाम् आवेदसगोसहि प्रथमम् जायमानः महो ज्योतिषःपरमे व्योमन्न सप्ताधोरवेणस्मरथमुत्तमागुंसि बृहस्पतिस्मरेत्रमुक्तैः बृहस्पदेवर्येवामित्रे आनो दिवीरवीमादिवायस्ते स्तनः सरस्वत्यभिनैषीष्मेभिरोर्मिभिः क्तिभिः सरस्वतीक्षम् <imriky and bushflap> न्द्रिष्णुः परमात्री पृथिव्या विष्णो देवत्वम् चक्रमेत्रिदेव आवेदो यो दाकेवा अधिगोत्राणित्रस्य व्यथया मञ्जुमिन्द्रा आभिर्विश्वार्याय विशावयुन् अय मृदप्रकृते युधाते मञ्जुमिन्द्रः विश्वम् अनस्वधामक्षरन्नापोध्यानाव्यानाम् ऋषभम् वा वृधानम् अकवारम् दिव्यगोशासमिन्द्रम् विश्वासा हमोसे नूतनाय उग्रगोंस होदामिहतकोसवेमनिष्ठा उग्रस्सहे मन्द्रोधिष्ठो बहुलाभिमानः माता यद्भैरन्दनिष्ठावो मृतस्वदासीदमोः ोभरेषु मरुत्वागवाशो रैन्द्रः अन्वेन मदन्तीः अयगो राजा जगतश्चीनाम् स एव वीरसौवीर्यवान् एकराजा जगतः परस्पाः यदा वृक्रमदलक्षो रैन्द्रः तथा भगवत्तमिताभिक्रतूनाम् इन्द्रो यज्ञम् वर्धय विश्ववेदाः वर्तन्ते प्रादानुवन्मज्रबाहुः यदा दृग्वेदाः यथा विक्रमतरक्षोरैन्द्रः अथैकराजो अपवजनावत् इन्द्रो देवानामभवत्पुरोगाः इन्द्रो यज्ञे ृष्ठम् तथा भयम् एकैक्षतपदनेषु तस्मा इन्द्राय अभिराजुता इन्द्रो देवानामधिपाः पुरोहितः शत्रून् विधिग्मेनभे सम्मध्येनान्द्रः तस्वान्मधिपतिरक्षासदानः विष्णुन्देवम् वर्णमोदयफलम् मेसा देवा उपयाय यत्रम तानो यक्मागतम स्वदेना प्रददावदस्मेत्रुणेहदत्तम् मेसा देवा उपयाय यत्तम इष्टङ्गदेवं वर्णञ्च रादिम तानो अमिवाववादमानो इमि यक्किन्दुशमानः गुवेदम् विष्णुवर्णाय अवत्तरायनाह विशजनाय महेशमयच्छदम् दीर्घप्रयज्जो वैशाखारा कलिशारा दीर्घदण्डमागुन्सि प्रियरोजहासकविदारजागुन्सि वीर्यभिर्वेरतमाशुभिष्ठा देवप्रतीतासोभिः विष्णो अगन्वरुणा पूर्वभूतौ विष्णो वर्णा व्येवानाम् देवतमाशुधिष्ठा विष्णो नोदये ्यावाजाना उर्वीकीरे धीरस्य ी पृथ्वी बहुले दूरयन्ते रसा यज्ञेऽस्मिन् पृथिवीनाश्वारिष्ठाः ओषधेत्रस्य श्रीगो सत्य वशं ब्रह्मणस्पतिर्षभिहीः ब्रह्मस्वेदेव्यानुभवद्यथा वशम्ष्यदः योगादिवे विजाते ब्रह्मणस्पतिः ब्रह्मणस्पदे वीरेषु वीरागोपबन्धिनस्तम् ्रह्मणावेशमेवम्बरमान्तः सुक्रन्दे अन्यत्पूषे माथे प्रथामजिष्टभूषा प्रभथे दिवप्रभथे पृथिव्याः भवे अभिप्रियतमे सदस्थे आजवाजानन्न भूषादुबन्धिवृथिव्याः बृहस्पतिर्मघवादस्मवर्त्याः सूर्यायैस्वशे संलक्षाणो न न्ति हरा इमेद कृष्णे पुत्रा उपमासोष्ठाः श्रिया मरुक्षु अनुविश्व यत्र इन्द्रदेवेन्द्रोगवन्दे अस्ति ृषभञ्जर्षणीनाम् चोरस्य राजो यैशेष्ट्रम् वायुना गोपदीषु रिक्षप्राभमानाश्व नोदर्यारञ्जसंः आसा तर कृष्णाख्यन्ता ीनां देवस्य दर्दस्यामाः मित्रमावृणस्था न विश्वे वृथा भवन्तुस्वती सह दीविरस्तुमस्मे अग्ने याहि दोत्रम् वारिशेण्यः देवागो ब्रह्मकृतागणेन सरस्वतीनापः त्यादिषाफलम् अन्वरीक्षयौ वर्गविष्ट्या ये क्रीष्पात्रायध्वम् मम सा देवावतावृत्याम् अस्माकम् ब्रह्मपुदनादिनस्य अस्माकम् णावीष्टम् शिशा सन्तोषीम आनो मित्रावृणाहव्यम् कृते गव्योजिमुक्षद्याः प्रतिभायन् श्रवयुत श्रुतम् मे मित्रावृणाः वेमा इमारुद्रायस्तरधन्महेगः क्षिप्रेश मे देवाय स्वधाम्नेः श्राढाय सहमानाय मीडिषेः रिक्मायुधाय भरता सुतन वादत्तेभिरुदशन्तमेभिः एतद् कुरुमेमा सि यपदेवे यस्मत् तेजातरम जगुह तिने वागस्थारे स्वार्शुदी अरहन्मे भरशमान शोके आदेव धर्मतागु नमेतो आनसूर्यस्य चन्द्रशायर्था अज्ञावेरारोदिक्षमेता प्रजाये महद्र प्रजाभि देवावप्रोद्रमेविकताना एतद् देवनहर्णेशेनोकिंसे दे दे दे हावनुस्नोर नरदेहोरि प्रप्तदेम विदजस्वीराः प्रणार्त्रस्य यजिष्ठश्वं यम्सूर्यस्य चित्रायमाध्यासः नमस्यो दिवः पृष्ठमस्थोर्यस्य क्षेर्योद्योस्थे अनन्तमन्यषदस्य राजः कृष्णमन्यवाग् सूर्यस्य निरगोदात् अनुनामित्रो नाम सुन्दरपृथिवीर्तज्यो दिवा रुक्मृतिक्षा विदेति दूरेऽर्थिमानः मोरञ्जना सूर्येण प्रसूताः आयन आयन्नर्थालुणमन्नपाकंसिंहानुनाश्रणे तत्सो चित्रम् अन्तरिक्षम् सूर्यात्मा जगतश्च अयम् अस्य सुः राजा सुक्षत्रायनिश्च वेदाः तस्य वैगोसुमतो यज्ञे मनसे स्याम अनमिवासेण पृथिव्याः स्वाधियो विदते क्षन्तः स्यामीशिया सुषेवः तस्मा एतत्पन्नतमाविशिष्टम् अग्नो मित्राय अभिराजहोता ्राणिभ्याम् युव श्रीम्पर्योषा वृणीतायाम् हरिघ्रगुंसवास्त्राप्रयातिभक्तिः तेन यश्विनासहस्रधानैः श्रमेभिः पारयन्ताग्नीयाम् इदम् वजस्वर्यति तस्मै अग्नेयसोमा हृषास परयाद देवत्री जामुना सहायो हृदेना तस्य प्रजां रक्षदम भातम नमो महासा जयनाय मेहि सम्मैच्छदम अग्नेयसोमाया आहतुं यो वान्दसाvarthetaष्पुदं सप्रजया स्वैरियम इष्टमाय व्यश्नमद अग्नेयसोमातेदत्तवीर्यम् बां तथा लुष्ठेदन वदनम मङ्गोह आचार समृद्धिस्तस्य शेषः पवेंद्र संजोधरेकं बहुख्यः अग्नेयसोमा विवरमोसमय अग्नेयसोमा विशप्तस्य अहमस्मि प्रथमजातस्य पूर्वम् देवेभ्यो मृदर्शनाभिमाबान्न वदन्तम् अहमन्म्यविचरामि समानमर्थम् वर्येमि भञ्जतयेहितम् लोक एतत् न्नमहो अन्नम् मृत्युङ्गमजीवादमाहुः अन्नम् ब्रह्माणो जलसंवदन्ति अन्नमाहुप्रजनम् प्रजानाम्प्रजेता भवति केवलादिषन्नस्मिन् चेवा उपजीवन्ति विश्वे वाचं देवा मनुष्या, ृतस्य नापि सानोषाज्ञमागाद्वन्ति लोके चत्वारि वाक्परिमिता पदानि तानविदर्ब्राह्मणा एव नेशिनः गुहात्रीयन्ति वदन्ति श्रद्धयाग्नि श्रद्धया विन्दते रविः श्रद्धानिवेदयामुश्रद्धिग्रश्रद्धेददासुतः प्रियम् भोजेशैध्वसु इदम् कृधि यथा देवासुरेषु श्रद्धा एवम् भोजेशैध्वसु अस्माकमुदिनम् कृधि श्रद्धान्देवायुजमानाः उपासते श्रद्धागुणो हविः श्रद्धाम् प्रातरहा श्रद्धाम्बि श्रद्धागुणसूर्यस्य निम्बृजि श्रद्धे श्रद्धापयेहमाः श्रद्धादेवानधिहस्ते श्रद्धाविश्वमिदम् जगत् श्रद्धाङ्गामस्य मातरम् अविशावर्थयामसि ब्रह्मजिज्ञानम् प्रथमम् पुरस्तात् श्रीमदस्वरुजो वेन ृषभौरयिणाम् अन्तरिक्षम् विश्वरूपः विवेशः विराजा ब्रह्मसन्दम् ब्रह्मणा वृद्धयन्तः ब्रह्मदेवान जनयद् ब्रह्म विश्वमिदम् जगत् ब्रह्मणः क्षत्रम् निर्मितम् ब्रह्म ब्राह्मणः R provincyisen 순 önemli known as Gur еёalesü, A starore či paražadeva tiv sus porключi Dieu Bivil suas montanõni eonh kril jamais tivoui vudos incidental, Selvinjali Ιc selbst Entitility sich, Asido我們 हस्यो स्मेन्द्रो मे प्रथमस्य श्रीरञ्जित्कुणथा सुप्रतीकम्भद्रवाचयच्चरे सभासु श्रद्धाप्रवाणे भवन्तीञ्जापर्चनम् आशुकोषूपृच्छता रावभावरे एण्या आनावतम् अधिमन्ता महीम्प्रतरणाच्मी सूर्यरश्मी हि क्षा पृथिवीदर्शतम् प्रभोभिचक्षे श्रद्धेगमिन्द्रजनाफलम् च रतो नाय शिशु क्रीडन्तो ध्वरम् विश्वान्योभुवनाभितिष्ठे अतो हन्याविद्यायः पावकाया स गोराजाः पश्यामि आसीत्प्रगेतः आनीतमासीत् तमसा गोढमग्रे प्रगेतम् इदम् चैनाभवि रंगिदासि येद अस्तम महिना जागतेयकं तामस्र क्लेशमर्थदादि अनसौरेतत्वमभिदासि येद सदावं नमस दले विन्दन्नः त्रिपुरेशा गभयो मणीशा तदस्ति नभदास्विरेषां पदस्विदासि गोवरे सुधासि येदन एदोधाता सम्मेमाना वन्न सुधावस्ता प्रेद परस्ता आद पर आमेर गय कृमानद ष्टो मुनीषुवे निष्ठदक्षो मनीषिणो मनसा विप्रवीमिव ब्रह्माचारयन्धैर्योभिश्चित्यम् राजाम्भगम् भक्ष्यीत्याह भगक्ष्णे दर्भग सत्यराधः भगेमान्दीयन्नः न्तः उदेवायम् भगवन्तः तन्द्वा भगवैद्योहवीमि तमोगपरतापवेह तमध्वरा योषतो नवन्तयम् वसविदम् भगन्नः भवन्तुर्वामदेव न भद्राः प्रवीणाः योजम् वादस्वस्तिभिदानः इति द्वितीयाष्टके अष्टमः प्रश्च समाप्तः द्वितीयाष्टकश्च समाप्तः